हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्म अध्यात्मरामायणे अयोध्याकाण्डे तु श्रीमहादेव वाच ततो दश रथो राजा रामाभ्युदयकारणात् आदिश्य मन्त्रि प्रकृतिः स्वानन्दो गृहमाविशेत् तत्र दृष्ट्वा प्रिया राजा किम् एतदति या पुरा मन्दिरम् तस्य प्रविष्टे महि शोभना हसन्ते मामुपायापि सा किं नैवाद्य दृश्यते इत्यात्मन्येव सञ्चिन्त्य मनसातीविदूयत स्वप्रच्छदासीनिकरम् कुतो वः स्वामिनि शुभ नायाति माम् यथा पूर्वम् मत्प्रिय प्रियदर्शना उचु क्रोधभवनम् प्रविष्टा नैव विद्महे कारणं तत्र देवस्त्वं गत्वा निश्चेतुमर्हसि इत्युक्तो भयसन्द्रस्थो राजा तस्याः समीपगः उपविश्य श निर्देहम् स्पृशन् वै पाणिनाब्रवीत् किं शेषे वसुधा पृष्ठे पर्यङ्गादीन् मां तम खेद से भीरु परित्यज्य, अलंगारज्य भोम मलिभासा कि रूहि सकल विधा तब वांछित कौतवा हिम कर्ता नारी दंड बध्यत भविष्य न संचय ब्रूहि देवि यथा प्रीति तदवश्यम् ममाग्रतः तदिदानीं साधयिषी सुदुर्लभमपि क्षणात् जानासि त्वम् मम स्वान्तम् प्रियम् स्वशे स्थितम् तथापि इमां केदयसि परिश्रमः ब्रूहि कम् धनिनम् कुर्याम् ते प्रियङ्करम् धनिनम् क्षणमात्रेण निर्धनञ्च तवाहितम् ब्रूहिकं वा वधिष्यामि वधाहो वा विमोक्षते किम् अत्र प्राणान् दास्यामि ते प्रिये मम प्राणात् प्रियतरो रामो राजीवलोचनः तस्योपरि शपे ब्रूहि त्वद्धितं तत् इति ब्रूहाणम् राजानम् शपन्तम् राघवोपरि शनैर्विमृज्य नेत्रे सः राजानम् प्रत्यभाषत यदि सत्यः प्रतिन्योऽसि शपथम् कुरुषे यदि याञ्चाम्बे सफलां कर्तुम् शीघ्रम् बेव तमर्हसि पूर्वम् देवासुरे युद्धे मया त्वम् परिरक्षितः तदावर दत्तम् त्वया मे तुष्टचेतथा तद्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् एभि संवृत संभारै यौवराज्येऽभिषेचय अपरेण वरेणाशु रामो गच्छतु दण्डकान् मुनिवेश धर श्रीमान् चतुर्दश समासत्र कन्दमूलफलाशनः पुनराया तु दस्यान्ते वने वा तिष्ठतु स्वयं प्रभाते गच्छतु वनं रामो राजीवलोचनः यदि किञ्चित् विलम्बेत प्राणान् त्यक्षे तवागतः भव सत्यप्रतिज्ञम् एतदेव मम प्रियं श्रुत्व तद्दारुणं वाक्यम् कैकय्या रोम हर्चनम् निपपात मयि पालो वज्राहत इवाचरः शनैल्य नैने विमुज्य परयाभिय दुःस्वप्नो वा मया दृष्टो यथवा चित्तविभ्रमः इत्यालोक्य पुरपत्नीं गघ्रिमिव किमिदं भाषसे भद्रे मम प्राण हरं म् अपराधं ते कृतवान् कमलेक्षण मम अग्रे राघवगुणान् वर्णयस्य निशंशुभान् कौसल्यामां तमं पश्यन् शुश्रूषां कुरु ते सदाय इति ब्रुवन्ति तम् पूर्वम् इदानीम् भाषसि अन्यथा राज्यं गृहाण पुत्राय राम तिष्ठतु मन्दिरे अनुगृह्णीक मां वामे रामा नास्ति भयं तव इत्युक्त्वा श्रु परिताक्षे पादयोर्निपपातः कैकेय प्रत्युवाचेदम् सापि रक्तान्तलोचना राजेन्द्र किं तं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा मिथ्याकरोषि चेत् स्वीयं भाषितं नरको भवेत् वनं न गच्छेद् प्रभातकाले जनञ्जीरयुक्ते उद्बन्धनं वा विषभक्षणं वा कृत्वा मरीषे पुरतस्तवान् सत्यप्रतिन्योऽहमितिह लोके विलम्बसे सर्वसभान्तरेषु रामो शपथं च कृत्वा मिथ्या प्रतिज्ञो नरकं प्रयाहि इत्युक्ता प्रिया मग्नो दुःखार् नवे नृपः मूर्छितः पतितो भूमौ विसन्ध्यो मृतको यथा एवं रात्रिर्गता तस्य दुःखाम्बत्स्वरूपमा अरुणोदयकाले तु बन्दिको गायका जगुः निवारयित्वा तान् सर्वान् कैकेयी रोषमास्थितः तथा समये मध्यकक्षमुपस्थिता ब्राह्मणा क्षत्रिया वैश्या ऋषय कन्यकास्तथा छत्रं चामरं दिव्यम् गजो वाजी तथैव च अन्याच्च वारमुख्याय पौरजानपदस्तथा वसिष्ठेन यथा तत्सर्वं तत् स्त्रियो बालाश्च वृद्धा च रात्रौ निद्रां नलेभिरे कदा द्रक्ष्यामहे रामम् पीतकौशेयवाससं सर्वः भरण सम्पन्नं किरीट कट कटकोज्ज्वलम् कौसुभरणं क्षामम् कन्दर्पशतसुन्दरम् अभिषेक्तं समायान्तं गजारूढं स्मिताननम् श्वेतछत्रधरं तत्र लक्ष्मणं लक्ष्मणान्वितं रामं कदा प्रभातं वा कदा भवेत् इत्युत्सुकधियत् सर्वे बभूव पुरवासिनः निदानीम् उत्थितो राजा किमर्थं चेति चिन्तयन् सुमन्त्र शनकैप्रायात् अत्र राजावतिष्ठते वर्धयन् जयशब्देन प्रणमञ्चिर नृपम् अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत् देवी कैकेयी वर्धस्व किं राजा दृश्यतेऽन्यथा तद्माहे कैकयी राजा रात्रौ निद्रां न लब्धवान् राम रामेति रामेति रामम् एवानुचिन्तयन् प्रजाकरेण राजा यस्वस्थैव लक्ष्यते रामम् मामय शीघ्रं तम् राजा द्रष्टुम् येच्छति अश्रुत्वा राजवचनम् कथं गच्छामि भामिनी तत् श्रुत्वा वाक्यम् राजा मन्त्रिणमब्रवीत् सुमन्त्र रामम् दक्ष्यामि शीघ्रं मामय सुन्दरम् इत्युक्त्वा गत्वा सुमन्त्रो राम मन्दिरम् अवारितये प्रविष्टोऽयम् त्वरितम् राममब्रवीत् शीघ्रम् आगच्छ भद्रं ते राम राजीव पितुर्गेहम् मया सार्धम् पितु पितु। राजा त्वां द्रष्टुमिच्छति इत्युक्तो रथमारुह्य सम्भ्रमा त्वरितो ययो रामस्वार्थिना सार्धम् लक्ष्मणेन समन्वितः मध्यकक्षे एव सिष्ठादीन् पश्यन्नेव त्वरान्वितः पितुः समीपम् सङ्गम्य न नाम चरणो पितुः रामम् राजा समुत्थाय रामेति, समुत्था सहू प्रसाद राध्ये पैहेती रा शीघ्र आलिंग्याशयत राजूर्चित दृष्ट शुक्रुषु सर्वोषि किम रोदनमी वसीष्ठ साम पृच कि कारण एवं पृच्छति रामेसा, सा रामम राममब्रवी त्वम् वेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये किञ्चित् कार्यं प्रया राम कर्तव्यं नृपते हितं कुरु सत्यप्रतिन्य राजानं सत्यवादिनं राज्ञावरत्रयं दत्तम् मम सन्तुष्ट चेतसा तदधीनं तु तत्सर्वम् ज्जसे नृप सत्यपाशेन संबंधम पितर दातमर् पुत्र शब्द नैतधि नरकाय पिता रामस्ोदित श्रुवा शूले नियो यथा व्यथित कैकेयरा कि प्रभाषसे पिता से जीवित दाशे पिपेय ीतां चक्षेसर कौसल्याम् राज्यं चापि च याम्यहम् अनाज्ञप्तोपि कुरुते पितुः कार्यम् स उत्तमः उक्तः करोति यः पुत्र स मध्यम उदाहरस उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते अच करोमि तत्सर्वं जन्माह सत्यं सत्यं करोम्येव रामोऽद्भिर्नाभिभाषते इति रामः प्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे राम तदभिषेकार्थम् संभारा समृताश्च तैरेव भरतो वश्यम् अभिषेच्य प्रिय मम अपरेण वरेणाशु शीर्वासा जटाधर वनं प्रयाहि शीघ्रं अद्वे पिता चतुर्दश्र वस मुन्न भोजन एक पिता सेज्य कार्य कर्मसी राजा तो लज्जते वक्त तामे रघुनंदन श्रीराम उच भरत राज्य सै अहम गि दंडका किन्तु राजा न भक्ति है मां न जानेत्र कारणम् श्रुत्वैतद्रामवचनम् दृष्ट्वा रामम् पुरस्थितम् प्राह राजा दशरथो दुःखितो दुःखितं वचः स्थिजितम् फलान्त हृदयम् उन्मार्ग परिवर्तितम् निगृह्य मां गृहाणेदम् राज्यं पापं न तद्भवेत् एवं चेत् अनृतं नैव मां स्पृजे इत्युक्त्वा दुःख सन्तप्तो विरलापनुपसदा हा रामः जगन्नाथ हा मम प्राणवल्लभ वां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि इति रामं समालिङ्ग्य मुक्तकण्ठोरुदः विमृज्य नयने राम पितुः स जलपाणिना आश्वासया क्षण कोविद विद कि मत्र दुखे न विभव। राज्यम चाशुत मेनुज अहम प्रति पुनर्यासमी ते पु राजकोटिगुण सौख्यम मजन वने सत्यपाल भविष्य कैकेययाच प्रिय राज वनवासो महागुणः इदानीं गन्तुमिच्छामि वेत्तूरातु चुज्वरः सम्भारा चोपैरियन्ताम् अभिषेकार्थमाहृता वातरं च समाश्वास्य अनुनीय च जानकिम् आगत्यपादो वद्धित्वा तव यास्ये सुखं इत्युक्त्वा तु परिक्रम्य मातरम् द्रष्टुमाययो कौसल्यापि हरे पूजाम् कुरुते रामकारणात् होमं च कारयामासे हो ब्रह्मणेभ्यो ददोधनम् ध्यायते विष्णुमेकाग्रे मनसा मोनमासितः अन्तर्थमेकम् घनचित्रकाशम् निरस्त सर्वातिशयस्वरूपम् विष्णुम् सदानन्दमयम् हृदब्जे स भावयन्ति नन्द दर्श रामम् इति श्रीमदध्यात्मरामायणे मामयुरथोमरे अयोध्याकाण्डे तृतीयसर्गः श्रीसीतारामचन्द्रार्पणमस्तु